एते चान्ये च चा बहवः सर्पास्तस्यां युधिष्ठिरा उपासते महात्मानं वरुणं विगतक्लमाः बलिर्वैरोचनो राजा नरतः पृथिवीम् जयः प्रह्रादो विप्रचित्तिश्च कालखञ्जाश्च दानवाः सुहनुर्दुर्मुखः शङ्खः घटोदरो महापार्श्वः क्रथनः विश्वरूप स्वरूपश्च विरूपोऽथ महाशिराः दशग्रीवश्च वाली मेघवासा दशावरः तिट्टिभो विटभूतश्च संह्रादश्चेन्द्रतापनः सर्वे रुचिरकुण्डलाः स्रग्विणो मौलिनश्चैव तथा दिव्यपरिच्छदाः सर्वे लब्धवराः ते वरुणं देवं धर्मपाशधरं सदा उपासते महात्मानम् सर्वे सुचरितव्रताः तथा समुद्राश्चत्वारो नदी भागीरथी च सा कालिन्दी विदिशा वेणा नर्मदा वेगवाहिनी विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती इरावती वितस्ता च सिन्धुर्देव नदी तथा गोदावरी कृष्णवेणा कावेरी च सरिद्वरा च विशल्या ची नृतीया ज्येष्ठिला चैव शोणश्चापि महानदः चर्मण्वती तथा चैव पर्णाशा च महानदी सरयुर्वारवत्या सरिद्वरा करतो या तथा त्रेयी लौहित्यश्च महानदः लङ्घती गोमती चैव सन्ध्या त्रिस्तोतसी तथा एताश्चान्याश्च राजेन्द्र सुतीर्थालोकविश्रुताः सरितः सर्वतश्चान्यास्तीर्थानि च सरांसि च कूपाश्च स प्रस्रवणा देहवन्तो युधिष्ठिरा पल्वलानि तडागानि देहवन्त्यथ भारत दिशस्तथा मही चैव तथा सर्वे महीधराः उपासते महात्मानं सर्वे जलचरास्तथा गीतवादित्रवन्तश्च गन्धर्वाप्सरसाङ्गणाः स्तुवन्तो वरुणम् तस्याम् सर्व एव समासते महीधरा रत्नवन्तो रसाये च प्रतिष्ठिताः सुमधुराः कथास्तत्र समासते वारुणश्च तथा मन्त्री सुनाभः पर्युपासते पुत्रपौत्रैः परिवृतो गो नाम्ना पुष्करेण ना च सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते एषा मया सम्पतता वारुणी भरत सभा दृष्टपूर्वा सभा रम्या कुबेरस्य सभाम् शृणु इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि वरुणसभवर्णने नवमोऽध्यायः